मुकुटानि महर्हाणि हेमवर्णंश्च कुण्डलान् हेमपुष्पाण्यनेकानि रुक्ममाल्यानि चापरान् शङ्खांश्च चन्द्रसङ्काशान्क्षता वर्तान् विचित्रिणः चन्दनानि च मुख्यानि रुक्मरत्नान्यनेकशः सांसि चमहर्हाणि कम्बलानि बहून्यपि अन्यांश्च विविधान् राजन् रत्नानि च बहूनि च स ददौ सहदेवाय तदा राजा विभीषणः ततः सम्प्रेषयामासारत्नानि विविधानि च चन्दना गुरुकाष्ठानि दिव्यानाभरणानि च वासांसि च महार्हाणि मणिंश्चैव विभीषणं च राजानमभिवाद्य कृताञ्जलिः प्रदक्षिणं परित्यैव निर्जगामघटोत्कचः तानि सर्वाणि रत्नानि अष्टाशीतिर्निशाचराः आजहृःसमुदाराजन्हैडिम्बेन तदा सः रत्नान्यादाय सर्वाणि प्रतस्थे सघटोत्कचः ततो रत्नान्युपादाय हैडिम्बो रक्षसैः सः जगामतूर्णं लङ्कायाः सह देवपदं प्रति आसेदुःपाण्डवं सर्वे लङ्घयित्वा महोदधिं सह देवोददर्शाथा रत्नाहारान्निशाचरान् आगतान् भीमसङ्काशान् हैडिम्बं च तथा नृपा द्रमिलान्नैरुतान् दृष्ट्वा दुद्रुपुस्ते भयार्दिताः भैमसेनिस्ततो गत्वा माद्रेयम् प्राञ्जलिः स्थितः प्रीतिमानभवद्दृष्ट्वा रत्नौघम् तम् च पाण्डवः तम् परिष्वज्यपाणिभ्याम् दृष्ट्वा तान् प्रीतिमानभूत् विसृज्य द्रमिलान् सर्वान् गमनायोपचक्रमे न्यवर्तत ततो धीमान् सह देवः प्रतापवान् एवम् निर्जित्य तरसान्त्वेन विजयेन च करदान् पार्थिवान् कृत्वा प्रत्यागच्छदरिन्दमः रत्नभारमुपादाया ययौ सह इन्द्रप्रस्थं विवेशाथा कम्पयन्निव मेदिनीम् दृष्ट्वा युधिष्ठिरं राजन् सह देवः कृताञ्जलिः प्रहोऽभिवाद्यतस्थौत्सा लङ्का प्राप्तान् धनौघांश्च दृष्ट्वा तान् दुर्लभान् बहून् प्रीतिमान् अभवद्राजा विस्मयम् च ययौ तदा कोटिसहस्रमधिकम् हिरण्यस्य महात्मने विचित्रां स्तुमणींश्चैव धर्मराज तत्स निवेद्य भरतर्ष भर्मा सुखमुवास जन मेजया श्रीमहाभारभापर्वि दिग्विजयपर्वणिह दक्षिण दिग्विजय एक